श्रीहरिये नमः अथ चतुर्थोऽयः श्रीशुक उवाच न भगो यं तं प्रादरकविं यविष्टं यभजन्धायं ब्रह्मचारिणमागतं भ्राधरो भाङ्क्तं मह्यम् भजामपितरं तवा त्वां ममार्यास्तथापाङ्क्षो इमे अङ्गिरः सत्रमासते अद्य सुमेतसः उपेत्याह कवे मोह्यन्ति कर्मणी मस्त्वं संशयक्षूक्ते द्वे महात्मनः ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः दास्यन्ति ते तथान् गच्छ तथा स तस्मै दत् त्वाययो स्वर्गं ते सत्र परिशेषितं त्वं क्वचित् स्वीकरिष्यन्तं पुरुषकृष्णदर्शनः उवाचोत्तरदोभ्येत्य ममेधं वास्तुकं वसु ममेधं ऋषिभिर्धत्तमिति तर्हि स्म शान्नो ते पितरि प्रश्न पृष्टवान् पितरं तथा यज्ञवास्तु गतं सर्वम् उच्छिष्टं ऋषय शक्रुर्विभागं शक्रुर्विभागरुद्रायसः देवः सर्वमर्हति नभागस्तं भागस्तं प्रणम्याह तवे इत्याह मे पिता ब्रह्मन् यत्ते पिता वदत् धर्मं त्वं च सत्यं प्रभाषसे ददामि ते मन्त्रदृशे ज्ञानं ब्रह्मसनातनं गृहाणद्रविणं दत् मत्सप्रे परिशेषितम् इत्युक्त्वा अन्तर्हितो रुद्रो भगवान् सत्यवत्सलहा ययेत संस्मरेत् प्राध सायं च सुसमाहितः कविर्भवति मन्त्रज्ञो गतिं चैव ततात्मनः नाभागतम्बरीशो भूत् महाभागवत कृति न राजोवाच भगवन् श्रोतुमिच्छामि राजर्षेस्तस्य धीमतः न प्राभूत्यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः श्रीशुक उवाच तद्वीपवती महीम् अव्ययां च श्रियं चातुलं भुवि मेनेति दुर्लभं पुंसा सर्वं तत्स्वप्नसंस्तुतं विद्वान् विभवनिर्वाणं तमोविसति यत् पुमान् वासुदेवभगवतीं तद्भक्ति तेषु च प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतं स वै मनः कृष्णपाधारविन्दयो वचांसि वैकुण्ठगुणानुवर्णने करो हरेर्मन्दिरमार्जनातिशो श्रुतिं चकाराश्च्युतसत्कथोदये मुकुन्तलिङ्गालयधर्षणे दृशो पदा सरोज सौरभे श्रीमत्तुलस्यारसनां तदर्पिते पादौ हरे क्षेत्रपदासु सर्पणे शिरो हृषिकेशपदाभिवन्दने कामं च दास्य न तु एवं सदा कर्म कलापमात्मनः परेधि यज्ञे भगवत्य दोषजे सर्वात्मभावविदधन् न हिमि मां तन्निष्टविभ्राभिहितः ससा सह महाविभूत्या उपचिदाङ्गदक्षिणैः तथैर्वशिष्टासितगौतमादिभिः धन्वन्त्यभिश्रोतमसौ सरस्वती यस्य क्रतुषु गीर्वाणे स दस्यारिद्विजो जनाः तुल्यरूपाश्च अनिमिषा व्यदृश्यन्त सुवाससः स्वर्गो यस्य मनुजैयमरप्रियः शृण्वद्भिपगायद्भि उत्तमश्लोकचेष्टितं समर्धयन्ति तान् कामा स्वराज्यपरिभाविताः दुर्लभानाभिसिद्धानां मुगुन्तं हृदि पश्यतः स यत्तं भक्तियोगेन तपोयुक् तेन पार्थिवः स्वधर्मेण हरिं प्रीणन् सङ्घान् सर्वान् गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमश्यन्दनवाजिभु श्य अक्षयरत्न आभरणायुधादिषु अनन्तकोशेषु अकरोत् सन्मतिं तस्मा अदात् हरिश्चक्रं प्रत्यनीकभयावहम् एकान्तभक्तिभावेन भ्रीतो भृत्याभिरक्षणम् आरीराधयिषु महिष्यातुल्यशीलया युक्तसावत्सरं वीरो दधार द्वादशी व्रतं व्रतान्ते कार्तिके मासीं त्रिरात्रं समुपोषितः स्नातकदाचित्काळिन्द्यां हरिं मधुवनेऽर्चयत् महाभिषेकविधिना सर्वोपस्करसम्पदा अभिश्च अम्बराकल्पयेर्गन्धमाल्यार्हणादिभिः तत् कदान्तरभावेन पूजयामास केशवं ब्राह्मणांश्च महाभागान् सिद्धार्तान विभक्तितः गवां रुक्मविषाणिनां ऋव्याङ्ग्रीणां सुवाससां पयशील वयो रूप वत्सोपस्करसम्पद प्राहिणोत्साधु विप्रेभ्यो गृहेषु न्यर्भुधानिषन् भोजयित्वा द्विजानग्रे स्वात्वन्नम् गुणवत्तमम् लब्धकामै अनुज्ञात पारणाय उपचक्रमे तस्य तर्ह्यति दुर्वासा भगवान् भूतमानर्चातिथिं भूप प्रत्युत्थान आनसनार्हणैः ययाचेभ्यवहाराय पादमूलमुपागतः प्रतिनन्द्यसत्याज्ञां कर्तुमावश्यकङ्गतः इममज्ज बृहध्यायन् कालिन्दी सलिले शुभे मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति चिन्तयामासधर्मज्ञो द्विजैस्तद्धर्मसङ्कटे ब्राह्मणाधिक्रमे दोषो द्वादश्यां यदपारणे यत् कृत्वा साधुमे भूयात् अधर्मो वा न मां स्पृशेत् अम्बसा केवलेनाथ करिष्ये व्रतपारणम् प्राहु अभक्षणं विप्रा ह्यसितं नासितं च तत् इत्यपःप्रास्य राजर्ष्येश्चिन्तयन्मनसाच्युतम् प्रत्यचष्ट कुरु श्रेष्ठ द्विजगमनमेव सः कृतावश्यक आगदघा राज्ञाभिनन्दितस्तस्य बुभु चेष्टितं दीया मन्युना प्रचलद्गात्रो भृकुटीकुटिलालनः बुभुक्षितश्च सुधरां कृताञ्जलिम् अभक्षत अहो अस्य नृसंसस्य श्रियोन्मत्तस्य पश्यत धर्मव्यतिक्रमविष्णो अभक्तस्यै समानिनः यो मामदितिमायातम् आदित्येन निमन्त्र्य च अधत्वा भुक्तवांस्तस्य सत्यस्ते दर्शये फलम् एवं ब्रुवाणमुत्कृत्य जटाम्ब्रोषविदीपितः तया स निर्ममेतस्मै कृत्यां कालानलोपमा ताम आपतन्तीं ज्वलतीं असि हस्तं पदा भुवं वेपयन्तीं समुद्वीक्ष्य न च चालपदा नृपः भ्रादिष्टं पुरुषेण महात्मना ददाहकृत्यां तां चक्रं क्रुद्धाहिमिव पावकः तत स्वप्रयासं च निष्फलं दुर्वासाधु दिक्षु प्राणपरीप्सया तं मन्नदावद्भगवत्रदाङ्गं दावाग्नि उद्धूतशिको यताहिं तथानुशक्तमुनिरीक्षमाणो कुकां विविक्षु प्रससारमेरोः दिशो न भक्षमां विवरान्वसमुद्रान् लोकान् सपालान् स्त्रिदिवं गतः यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श अलब्धनाथ स यथा कुत देवं विरिञ्जं समगात् विधात त्राख्यात्मयो न जिततेजसोमः स्थानं मदीयं हविश्वमेतद् क्रीडावसाने द्विपरार्धसंज्ञे प्रभङ्गमात्रेण कालात्मनो यस्य तिरो भविष्यति अहम्भवो दश भृप्रधाना प्रजे स भूते स सर्वे वयं यन्नियमं प्रपन्ना मूर्त्यर्पितं लोकहितं वहामः प्रत्याख्यातो विरिञ्चन् विष्णुचक्रोपतापितः दुर्वासा शरणं यातः सर्वं कैलासवासिनं श्रीरुद्रवाचा वयं न तात प्रभवाम भूम्नि यस्मिन् परेण्ये व्यजीवकोशाः भवन्ति काले भवन्ति कीतृशात् सहस्रशो यत्र वयं भ्रमामः अहं सनत्कुमारश्च नारदो भगवान् जगा देवलो धर्म आशुरिः मरीचिप्रमुखांश्चान्ये सिद्धेशाभारदर्शनाः विदामनवयं सर्वे यन्मायां मायया व्रताः तस्य विश्वेश्वरस्येधं शस्त्रं दुर्विषहं हिनः तमेव शरणं याहि हरिस्ते संविदास्यति ततो निरासो दुर्वासा पदं भगवतो ययौ वैकुण्ठाक्यं यदध्यास्ते श्रीनिवासश्रिया सह सन्दह्यमानोजितशस्त्रभग्निना तत्पधमूले आह अच्युत अनन्तसदीषित प्रभो कृताकसंहि विश्वभावन अजानता दे परमानुभवं कृतं मया गम् भवतः प्रियाणा विदेहि तस्यापचितिं विधात मच्चेतयन्नाम्नि उदिते नारकोऽपि श्रीभगवानुवाच अहं भक्तपराधीनो यस्वतन्त्र इव द्विजा साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः नाहमात्मानमासाशे मद्भक्तैः साधुभिर्विना श्रियं च आत्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ये प्तान् प्राणान् वित्तमिमं परं हित्वा मां शरणं याता कथं तान् त्यक्तुमुत्सुखे मयि निर्बद्धहृतया साधवः समदर्शनाः वसीकुर्वन्ति मां भक्त्या सस्त्रियः सत्पतिं यथा मत्सेवया प्रतीतं च सालोग्यादि चतुष्टयं नेच्छन्ति सेवया पूर्णा कुतो यत्कालविद्रुतं साधवो हृदयं मह्यं साधूनां हृदयं त्वहं मदन्यत्ते न जानन्ति नाहं देव्यो मनागपि उपायं कथयिष्यामि तव श्रवदते, अयम् ख्यात्मा ह्यात्माभिचारस्ते यतस्तं या यातु वैभवान् सा दुशो प्रहितं ते जहर्तुं कुरुते तपो विद्या च विप्राणा निःश्रेयसकरे बुभे ते दुर्विनीतस्य कल्पेदकर्तुरन्यथा ब्रह्मन्नस्तद्गश्च भद्रं तेनाभगातनयं नृपं क्षमापय महाभागं ततः शान्तिर्भविष्यति इति श्रीमद्भागवते महापुराणे नवमस्कन्ते अम्बरीषचरिते चतुर्थोऽध्यायः